श्रीहरि नमः अथ सप्तमोऽध्यायः राजोवाच येन येन अवतारेण भगवान् हरिरीश्वरः करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो यच्छृण्वतोपैत्यरतिर्वितृष्णा सत्वं च सुध्यत्यचिरेण पुंसः भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वदमन्यसे चेत् अथायन्यदपि तोकाचरितमद्भुतं मानुषं लोकमासाद्यं तत् जातिम् अनुरुन्धतः त्रिसुक उवाच जन्मर्षयोगे समवेदयोषितां वादित्रगीतधिजमन्त्रवाचकैः शकारसूनो अभिषेचनं सती मन्दस्य पत्नी कृतमञ्जनादिकं विप्रैकृतस्वस्त्ययनं सुभुजितैः अन्नाद्यवाससृगभीष्टधेनुभिः सञ्जातनिद्राक्ष असीषयच्छनैः समागतान् पूजयती व्रजौह सः नैवाशृणोद्वैरुदितं सुतस्य साधृतं स्तनार्ति क्षरणावुदक्षिपत् अतः स यानस्य शिशोरनोल्पः प्रवालमृद्भङ्गृहतं व्यवर्तत व्यत्यस्तचक्राक्षविभिन्नकुकूभरं दृष्ट्वा यशोता प्रमुखा व्रजस्त्रिया औत्तानिके कर्मणि नन्दातयश्चाद्भुतदर्शनाकुलं कथं स्वयं वै सकटं विपर्यघात् ऊचु अव्यवसितमतीन् गोपान् बालकाः रुदतानेन पादेन क्षिप्तमे तन्न संशयः न ते बालभाक्षितमित्युत अप्रमेयं तस्य बालकस्य न ते विदुः रुदन्तं सुतमाधाय यशोदागृहशङ्किता कृतस्वस्त्ययनं विभ्रै सूक्तैस्तनम् अपाययत् पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदं विप्राहुत्वाञ्छयाञ्झक्रोर्धत्यक्षतकुशाम्भुभिः ये सूयानृतधम्बेर्ष्यान् हिंसामानविवर्जिताः न तेषां सत्यशीलानाम् आशिषो विफलाः कृताः इति माधाय बालकमा साम्यजुरपाकृत जल्प्रौषधि अभीष्यजोत्तम वाचयित्वा स्वस्त्ययनं नन्दगोपसमाहितः हुत्वा शाग्निं द्विजादिभ्य प्राधातन्न महागुणं गावः आत्मजाभ्युतयार्थाय न्वयुञ्जता विप्रामन्त्रविधो युक्ता स्थैर्यां प्रोक्तास्तथा शिशः ता निष्फला भविष्यन्ति न कदाचिदभि स्फुटम् एकधारोहमारूढं लालयन्ति सुतं सती गरिमाणं शिशोर्वोढं न भूमौ निधाय गोपी विस्मिता भारपीडिता महापुरुषमाधत्यौ जगतामासकर्मसु दैत्यो नाम्ना तृणावर्थ कं सप्रत्य प्रणोदितः चक्रवातस्वरूपेण जकारासीनमर्भगं गोकुलं सर्वमावृण्वन् मुष्णं च सुं शिरेणुभिहे ईरयन्सु प्रदिशोदिशः मुहूर्तमभवद्गोष्ठं रजसतमसा वृतं सुतं यशोधानापश्यत् तस्मिन् यस्तवतीयतः नापश्यत् कश्चनात्मानं परं चापि विमोहितः तृणावर्त निःसृष्टाभिः सर्कराभि इति करपवनचक्रे पांसु वर्षे सुधपदवीमबलाभिलक्ष्य मा माता अतिकरुणमनुस्मरन्त्यशोचत् भुवि पतितामृतभत्सखायता गौः पवनवुपारतपां सुवर्षवेगे तृणवर्थः शान्तरयो वात्यारुपधरोहरन् कृष्णं नाभोगतो गन्तुं ना तमस्मानं मन्यमान आत्मनो गुरुमत्तया गले गृहतवुत्सृ नो दुतागम खलग्रगण निश्चे दैतो निर्गतलोचना अव्यक्तराव न्यपत सखबा व्यसुव्रजें तमरीक्षति शिलायां विशीर्णसर्वावयवं कराळं पुरं यथा रुद्रसरेण विद्धं स्त्रियोरुधत्योधृषुः समेताः प्राधाय माद्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्भमानं तं पुरुषाधनीतं विहाय गोप्यश्च गोपा किल नन्धमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् अहोपधात्यद्भुतमेष रक्षसा भालो निवृत्तिं गमितोऽभ्यगात्पुनः हिंस्रस्वपापेन विहिंसितः कल साधुःसमत्वेन भयात् विमुच्यते किं नस्तपश्चीर्णमदोक्षजार्चनं पूर्तेष्टदत्मुतः भूतसौहृतं यत्संपरेत्तः पुनरेव बालको दिष्ट्या स्वभन्धून् प्रणयन्नुपस्थितः दृष्ट्वाद्बुधा नि बगुसो नन्दगोपो बृहद्वने वसुदेव वचो भूयो मानयामास विस्मितः ये गता अर्भगमादाय स्वाङ्कम् प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता पीतप्रायस्य जननी सा तस्य रुचिरस्मितं मुखं लालयति राजन् जृम्भतो कन्द्रोदसि ज्योतिरनीकमासा सूर्येन्दुवग्निस्व सनाम्बुदींश्च द्वीपान्न गांस्तद्दुहित्रुर्वूतानि यानि स्थिर जङ्गमानि स्थिर जङ्गमानि सा वीक्ष्य विश्वं सकसा राजन् सञ्जातवेपतुः सम्मिल्य मृगसाभाक्षि नेत्रे आसीत् सुविस्मिता इति श्रीभागवते महापुराणे दशमस्कन्धे पूर्वार्ते तृणावर्तमोक्षो नाम सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज की जय